नारदपुराणं पूर्वार्धम् अध्यायम् 122 सनातन उवाच अथातः सम्प्रवक्ष्यामि त्रयोदश्या व्रतानि यानि कृत्वा नरोभक्त्या सुभगो जायते भुवि मद्धौ शुक्लत्रयोदश्यां मदनं चन्दनात्मकं कृत्वा सम्पूज्ययत्नेन ीजेयद्व्यजनेन च ततः संक्षुधितकामः पुत्रपौत्रविवर्धनः अनङ्गपूजाप्यत्रोक्ता तां निबोधमुनीश्वर सिन्धूरजनिराघैफलकेऽनङ्गमालिकेद रतिप्रीतियुधं स्वक्ष्णं पुष्पचापेषु धारिणम् कामदेवं वसन्त कामदेवं वसन्तं च वाजिवक्त्रं वृषध्वजं मध्याह्ने पूजयेद्भक्र्या गन्धस्रग्भूषणां श्युकैः क्षभ्यैर्नानाविधैश्चापि मन्त्रेणानेन नारद नमो माराय कामाय कामदेवस्य मूर्तये ब्रह्मविष्णुशिवेन्द्राणां मनः भो पराय वै तत्तस्याग्रदो तत्तस्याग्रदो भक्त्या पूजये पूजयेदङ्गनापदिं वस्त्रमाल्या विभूषाद्यै कामोऽयमिति चिन्तयेत् सम्पूज्य द्वि गन्धवस्त्रविभूषणैः एवं ह्य कुरुदे विप्रवर्षे वर्षे महोत्सवम् वसन्तसमये प्राप्ते हृष्ठपुष्ठस्तदैव सः प्रतिमासम् अनङ्गं चैव कन्दर्पम् पूजयेन्मकरध्वजं कुसुमायुधसंज्ञं च तदःपश्चान्मनोभवम् विषमेषु तथा विप्रमाददीगप्रियमित्यपि अजाया दानमप्युक्तं स्नात्वानद्याविधानदः अजापयस्वि निर्द्यादरिद्राय कुटुम्बिने भूयस्त्वनेन दानेन सलोके लोकेनैव जायते यदीयं चनिना युक्ता सा महावारुणि स्मृता गङ्गायां यदि लभ्येत कोडिसूर्यग्रहाधिका शुभयोगशतर्क्षं च शनौ कामे मधौ सिदे महामहेरिविख्यादा कुलकोटिविमुक्तिदा राधशुक्लत्रयोदश्यां तत्र गन्धादिभिकामं पूजयेदुपवासवान् प्रतिमासं तदपश्चात् सिदे दले ेवमेव व्रतङ्कार्यं वर्षान्ते गामलङ्कृतां दद्याद्भिप्रायसत्कृत्य व्रतसाङ्गत्वसिद्धये ष्येष्ठशुक्लत्रयोदश्यां दौर्भाग्यशमनं व्रतं तत्र स्नात्वा पूजये दीदोये पूजयेच्छुचि स्वेदमन्तारमर्कं वा करवीरं च रक्तकं सूर्यं प्रार्थयेन्मन्द्रतस्तदा मन्तारकरवीरार्का भवन्तो भास्करांशजाः पूजिता मम दौर्भाग्यं नाशयन्तु सिद्धं योर्चयदे भक्त्या वर्षे वर्षे द्रुमत्रयं नश्यदे तस्य दौर्भाग्यं नात्रकार्या विचारण शुचि शुक्लत्रयोदश्यामेकभक्तं समाचरेत पूजयित्वा जगन्नाथा वो मां माहेश्वरी तनुः हैम्यौ रौप्यौ चमृन्मप्यौ यथा शक्रिया विधाय च सिंहोक्षस्थे देवगृहे गोष्ठे ब्राह्मणवेश्मनि स्थापयित्वा प्रतिष्ठाप्य दैवमन्त्रेण ना नारद ततः पञ्चदिनं पूजा भक्तं व्रतं तथा तृतीयदिवसे प्रादस्नात्वा स्नात्वा सम्पूज्य तौ पुनः समर्पणीयौ विप्राय वेदवेदाङ्गशालिने वर्षे वर्षे तदपश्चाद्विधेयं वर्षपञ्चकं तदं देधेनुयुक्मेन सहि तौ तौ प्रदापयेत् इद्धं नरो वानारी। वा कृत्वा व्रतमिदं शुभम् नैव दाम्पत्यविच्छेदं लभदे सप्तजन्मसु नभशुक्लत्रयोदश्यां रदि कामव्रतं शुभं वैधव्यवारणं स्त्रीणां तथा सन्तानवर्धनं कृतोपवासा कन्यैव नारीवा द्विजतम ताम्रे वा मृण्मयेवापि सौवर्णे राजदे तथा रदि कामौ प्रवीण्यस्य गन्धाद्यै सम्यगर्जयेत् ततस्तु द्विजदाम्पत्यम् चतुर्दश्याम् निमन्त्र्य च सत्कृत्यभोज्य प्रदिमे दद्यात्ताभ्याम् स दक्षिणे एवं च दुर्दशाब्दं च कृत्वा व्रतमनुत्तमम् धेनु युग्मान्विदे व्रतसम्पूर्तिहेतवे भाद्रशुक्लत्रयोदश्यां गोत्रीरात्रव्रतं स्मृदं लक्ष्मीनारायणम् कृत्वा सौवर्णं वापि राजतम् पञ्चामृतेन संस्नाप्य मण्डलेष्टदले शुभे पीठे विन्यस्य वस्त्राढ्यं गन्धाद्यैः परिपूजयेद् आर्तिकं तदकृत्वा दद्यात्सान्नोदकं खडं एवं दिनत्रयं कृत्वा प्रतान्ते मा समर्च्य च सम्यगर्थं च सम्पाद्य दद्यान्मन्त्रेण नारद पञ्चगावसमुत्पन्ना मध्यमाने महो दधौ तध्येतु या नन्द्या या नन्दा तस्यै देन्वै नमो नमः प्रदक्षिणीकृत्य तदो दद्याद्विप्रायमन्त्रदः गावो ममाग्रदस्सन्धु गावो मे सन्धु पृष्ठदः गावो मे पार्श्वदस्सन्धु गवां मध्ये वसम्यहं ततश्च द्विगदाम्पत्यं सम्यगभ्यर्च्य भोजयेद् लक्ष्मीनारायणं तस्मै सत्कृत्य प्रतिपादयेद् अश्वमेधसहस्राणि राजसूयशतानि च कृत्वा यद्फलमाप्नोति गोत्रिरात्रव्रता च तद् इषे शुक्लत्रयोदश्याम् त्रिरात्रशोककव्रदम् हैमम् ह्यशोकम् निर्माय पूजयित्वा विधानदः उपवासपरनारी नित्यं कुर्यात् प्रदक्षिणाः अष्टोत्तरशतं विप्रमन्त्रेणानेन सादरम् हरेण निर्मितपूर्वं त्वमशोककृपालुना लोकोपकारकरणस्तत्प्रसीद शिवप्रिया तत तृतीये दिवसे वृक्षे तस्मिन्वृक्षध्वजम् समभ्यर्च्यविधानेन द्विजं सम्भोज्य दापयेत् एवं कृतव्रताीवैधव्यं नाप्नुयात् क्वचिद् पुत्रपौत्रादिसहिता भर्तुश्च स्यात् सुवल्लभा ऊर्ज कृष्णत्रयोदश्यामेकभक्तः समाहिदः प्रदोषे तैलदीपं तु प्रज्वाल्याभ्यर्च्य यत्नदः गृहद्वारे बहिर्दध्याद्यमो मे प्रीयदामिति एवं कृते दुर्विप्रेन्द्रयमपीडा न जायते ऊर्ज त्रयोदश्या मेघभोजि द्विजोत्तम प्रदोषेदु वाग्यदत्सुसमाहितः प्रदीपानां सहस्रेण सदेनाप्यथवा प्रदीपये शिवं वा विद्वा त्रिंशद्दीपमालय कृतेन दीपयेद्वीपान् ग्रन्थाध्यैपूजयेच्छिवं फलैर्नानाविधैश्चैव नैवेद्यैरपि नारद तदस्तु विदेवेशं शिवं नाम्नां शदेन च तानि नामानि कीर्त्यन्ते सर्वाभीष्टप्रदानि वै नमो रुद्राय भीमाय नीलकण्ठाय वेधसे सो सो वर्धिने सुरेशाय व्योमकेशाय वै नमः वृषध्वजाय सोमाय सोमनाथाय वै नमः दिगम्बराय भृङ्गाय उमाकान्ताय वर्धिने तपोमयाय व्याप्ताय शिपिविश्याय वै नमः व्यालप्रियाय व्यालाय व्यालानां पदये नमः महीधराय व्योमाय पशूनां पतये नमः त्रिपुरघ्नाय सिंहाय शार्दूलाय आर्षभाय च मिताय मितनाथाय सिद्धाय परमेष्टिने वेदगीताय गुप्ताय वेदगुह्याय वै नमः दीर्घाय दीर्घरूपाय दीर्घार्थाय महीयसे नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नमः कल्याणाय विशिष्याय शिष्ठाय परमेत्मने गजकृत्तिधराय ध अन्धकासुरभेदिने नीलोहितशुक्लाय चण्डमुण्डप्रियाय च भक्तिप्रियाय देवाय यज्ञान्तायाव्ययाय च महेशाय नमस्तुभ्यं महादेवहराय च त्रिनेत्राय त्रिवेदाय वेदाङ्गाय नमो नमः अर्थाय अर्थस्वरूपाय परमार्थाय वै नमः विश्वरूपाय विश्वाय विश्वनाथाय वै नमः शङ्कराय च कालाय कालावयवरूपिणे अरूपाय विरूपाय सूक्ष्मसूक्ष्माय वै नमः स्मशानवासिने तुभ्यं नमस्ते कृतिवात्ससे शशाङ्कशेखरायाध रुद्रभूमिश्रिताय च दुर्गाय दुर्गपाराय दुर्गावयवसाक्षिणे दुर्गा लिङ्गरूपाय लिङ्गाय लिङ्गानपदये नमः नमः प्रभावरूपाय प्रभावार्ताय वै नमः नमो नमः कारणकारणाय ते मृत्युञ्जयाय आत्मभवस्वरूपिणे त्र्यम्बकायशिधिकण्डभार्गिणे गौरीयुगे मङ्गलभेदवे नमः नाम्नां नाम शतमिदं विप्रपिनागिगुणकीर्तनं पठित्वा दक्षिणीकृत्य एवम् कृत्वा व्रतम् विप्रमहादेवप्रसादः भुत्वेह भोगानखिलानन्दे शिवपदम् लभेद मार्गशुक्लत्रयोदश्यां योऽनङ्गम् विधिना यजेद त्रिकालमेककालं वा शिवसङ्गमसम्भवम् गन्धाद्यैरुपचारैस्तु पूजयित्वा विधानदः कडे मङ्गलपट्टे वा भोजये द्विजदम्पती ततश्च दक्षिणां दत्त्वा स्वयमेकाशनं चरेद एवं कृते दुविधिवद्वृदि सौभाग्यभाजनः जायते भुवि विप्रेन्द्रमहादेवप्रसादः पौष शुक्लत्रयोदश्याम् समभ्यार्च्याच्युतम् हरिम् कृतपात्रम् द्विजेन्द्राय प्रदभ्या सर्वसिद्धये माखशुक्लत्रयोदश्याम् समारभ्य दिनत्रयम् माखस्नानव्रतम् विप्रमानाकामफलावहम् प्रयागे माघमासे दु स्नातस्य यद्भलम् नाश्वमेधसहस्रेण तद्बलं लभते भुवि तत्र स्नानं जपो होमोदानं चानन्त्यमश्नुते भाल्गुने दुतिते पक्षे त्रयोदश्यामुपोषिधः नमस्कृत्य जगन्नाथं प्रारम्भे धनदव्रदं महाराजं यक्षपतिम् गन्धाद्यैरुपचारकैः लिखितं वर्णखपट्टे पूजयेद्भक्ति भावदः एवं शुक्लत्रयोदश्यां प्रतिमासं द्विजोत्तम सम्पूजयेत्सोपवासश्चैकभुक्तो भवेन्नरः ततो व्रतां देदु पुनः सौवर्णं धननायकम् विधाय निधिभिः सार्धं सौवर्णाभिर्द्विजोत्तम उपचार्यैषोडशभिस्नानैः पञ्चामृदादिभिः न हिवेद्यैर्विविधैर्भक्त्या पूजयेत्तु समाहितः ततो धेनुमलङ्कृत्य वस्त्रस्रगन्धभूषणैः सवत्सां दापयेद्विप्र सम्यग्वेदविदेशुभां न्मिष्टान्नार्द्वादशाधत्रयोदश गुरुं समर्च्य वस्त्राध्यै प्रतिमां तान् निवेदयेद्विजेभ्यो दक्षिणां शक्त्या दत्वा नक्त्वा विसर्ज्य च स्वयं भुञ्जीदमधिमानिष्ठैः सह समाहितः एवं ऋते व्रते विप्र निर्धन्नः प्राप्य वैभवम् मोददे भुविख्यातो राजराज इवापरः इति श्रीबृहन्नदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वादशमासस्थित त्रयोदशीव्रतकथनं नाम द्वाविंशदधिकशततमोऽध्यायः ओम्